प्रियस्यामितादिविषो मासेत् कङ्गायत्र्यात् तस्य पर्णमक्षिद्यत तत्पर्णाभवत् तत्पर्णस्य पर्णत्वम् ब्रह्म वै पर्णः यत्पर्णशाखया वत्सा न पाकरोति ब्रह्मणैवैनानपाकरोति गायत्रो वै पर्णः गायत्रा पशवः तस्मात्त्रेण त्रिपदा गायत्री यत्पर्णशाखया गाः प्रार्पयति स्वदेवीना देवतया प्रार्पयति लङ्कामयेतापशुस्यादिनि अपर्णान् तस्मै शुष्काः ग्रामाहरेत् अपशुरेव भवति लङ्कामयेतपशुमान् स्यादिनि बहुपर्णान् तस्मै बहुशाखामाहरेत् पशुमन्तमेवैनम् करोति चेमाहरेत् देवलोकमभिजयेत् यदुदे चेम् मनुष्यलोकम् प्राचेमुदेचेमाहरते उभयो लोकयारभिजत्य विषत्वेत्याः विषमेव ज्यञ्जमाणे दे दधादे वायवस्थेत्याः वायर्वा अन्तरिक्षस्याध्यक्षाः अन्तरिक्षदेवत्याः खलु वै पशवः वायवगेवैनान् परिददाति अपायेनामेतदा करोति यदाह वायवस्थेत्यपायवस्थेत्याह यजमानायैवनुपह्वयते दे। देवोपःसरिता प्रार्पयत् इत्याहोगे श्रेष्ठतमादिकर्मण इत्याह यज्ञाहि श्रेष्ठतमम् कर्म तस्मादेवमाह आप्यायध्वमध्येयादेव भागमित्याह वर्चाभ्यश्च वा एता पुरा मनुष्येभ्यश्चाप्यायुन्ता देवेभ्य एवैना इन्द्रायाप्यायते ओर्जस्पते पयस्पतेत्याहर्जगम् हि पयः सम्भरन्ते प्रजावजैर्णमेवा यक्ष्मा इत्याह प्रजावाद्य मा वस्तेन एष रमाभिजगम् रुद्रस्य हेयपरिभावह रुद्रादेवेनास्त्रायते भ्रुवा अस्मिन् गोपतो स्याद्वक्वेरित्याह भ्रुवा एवास्मिन्वक्वे करोति हेमानस्य पशून्वाहेत्याह पशूनाम् गोपीताय तस्मात् सायम् पशव उपसमावर्तन्ते अनधः साधयति गर्भाणाम् धृत्याप्रभाय कस्माद्गर्भाः पजरानामप्रपादुकाः उपरे वणितधादे उपरे वणिसुवर्गो लोकः स्ववर्गस्य लोकस्य समष्ट्यै देवस्यत्वादविदप्रथमयुक्तस्वपरुषादत्वे प्रसोते अश्विना बाहुभ्यामित्याह अश्विनो हि देवानामध्वर्यो आस्तास्ताद्भ्यामित्याह यज्ञे यो वा वोढधेः पर्वशो वेद नैनाश्रहिनस्ति प्रजापतिर्वा वोढधेः पर्वशो वेद स्वयेनानहिनस्ति अश्वपश्वावर्हिरक्ष इति प्राजापत्यो वा अश्वस्त्रयो प्रेयमगाधिषणावरिजलक्षेत्याह विद्यावेधिषणाः विद्यैवे नक्षैते मरुणा कृता स्पथया विनष्टेत्याहे परिजस्पथा कृता ताः वहन्ति कवयः पुरस्तादित्याह शुश्रुवागम् सो वै कवयः यज्ञः पुरस्ताय मुखत एव यज्ञमारभते देवेभ्योदिष्टमिष परिहिरासुरहित्याः परिहिषः समर्थ्यै कर्मणो न पराशाय देवानाम् परिषूतमसीत्याह यद्वा इदम् किम् च तद्देवानाम् परिषूतम् अथो यथा वश्यसे प्रतिप्रोच्याहेतम् करिष्यामीति एवमेव तदधर्युदेवेभ्य प्रतिप्रोच्यपरिहृतादि आत्मनो हिगुंसायै यावदस्तम्बान् परिदिशेत् यत्तेषामश्यग्दृश्यात् अद्यज्ञस्यगेत् एकज्ञस्तम्बन् परिदिशेत् तघम् सर्वम् धायात् यज्ञस्यानुतिरेखाय वर्षवर्धमधेत्याः वर्षवृद्धा वा घोषयः एव परिहरित्याः देवेभ्येवेण करोति ना त्वान्मन्मागित्याहुंसाये पर्वतेराध्यासमित्याहध्येये आच्छेत्तादयमायुषमित्याह नास्यात्मनो गीयते य एवम् वेद देवकलेः शतवरुषं विरोहेत्याह प्रजावेवले प्रजानाः प्रजननाय अयुङ्गायुङ्गान्मुष्टेन् ननोतित्वायप्रजाः ते सुसम्भृताः त्वा सम्भरामेत्याह ब्रह्मणेवैनत्सम्भरते अनित्येरा स्नादेत्याह इयम् वा अतिधिः अस्या करोति इन्द्राण्ये सन्नहनैमिद्याः इन्द्राणीवाग्रे देवतानागम् समनह्यत सा अध्येतम् न क्यते प्रजा वै बहिः प्रजानामपरावापाय तस्मात्स्नावसन्तदा प्रजायन्ते ऊषा च ग्रन्थिम् ग्रन्थ्नात्वित्याः पुष्टिमेव विजमाने तथा च तदेवास्थादित्याहाहिंसाये पश्चात्प्रांशमुखगूहते पश्चाद्वै प्राचीनकुम्लेतोऽधीयते पश्चादेवास्मैः प्राचीनकुम्भेतो दधाति इन्द्रश्च बाहुभ्यामुपक्षयित्याह इन्द्रियमेव यजमाने दधाति बृहस्पतेर्मूर्धाः रामेत्याह ब्रह्म वै देवानाम् बृहस्पतिः ब्रह्मणेवैनद्धरति दे। उर्वन्तरिक्षमन्विहीत्यागत्यै देवम् गममसेत्याह देवानेवैनद्गमयति दे। अनतः साधयति गर्भाणाम् धृत्या प्रपादाय तस्माद्गर्भाः प्रजानामप्रपादुकाः उपरि वणिदधाति उपरि वणिसुवर्गो लोकः स्ववर्गस्य लोकस्य समष्ट्ये पूर्वेऽर्ध्य्वापरिः करोति यज्ञमेवारभ्य गृहे त्वोपवसते प्रजापतिर्यज्ञमसजरा तस्योहे अस्त्रपंसताम् यज्ञोले प्रजापतिः त्सान्नायके भवतः यज्ञस्यैवतदुःखे उपदधात्यप्रस्रपुंसाय शन्धध्वन्देव्याय कर्मणे देवयज्ञाय इत्याह देवयज्ञाया देवैनानिशुन्धति मातरिश्वनो घर्मोऽसीत्याह अन्तरिक्षम् वै मातरि घर्मः तेषाम् लोकानाम् युधत्यै द्यौरथपृथिव्यसीत्याह दिवश्चकेलापृथिव्याश्च सम्भृताः सुखाः तस्मादेवमाह विश्वधाया शुपरमेणधाम् नेत्याः वृष्टिर्वै विश्वधायाः वृष्टिमेवावरुन्धे ऋगुमः समात्पादित्या वसूनाम् पवित्रमधेत्याह प्राणा वै वसवः एषाम् वा एतद्भागधेयम् यत्पवित्रम् एभ्य एव वैनः करोति शतधारकम् सहस्रधारमित्याह प्राणेष्वेवायुर्दधातिथनुपत्त्वाय धृपत्पदाचि साक्षायानन्तर्भयम् भवति त्रुवद्वये प्राणः ध्रुवदमेव प्राणम् मध्यतो यजमाने दधाति सौम्यः पर्णस्य यो नित्वाय साक्षात् पवित्रम् दर्भाः प्राक्सायमधिधाति तत्प्राणापाणयो रूपम् पर्यप्रातः तद्दर्शस्य रूपम् अन्नम् वै चन्द्रमाः अन्नम् प्राणाः उभयमेवो वै त्यजामित्त्वाय तस्मादेकम् सर्वतः पवदे पुतस्तोको हुतो द्रक्षयित्याह प्रदक्षित्ये अविषवस्कन्दाय अहिरुस्वाहा कृतज्ञस्कन्दते अस्य विप्रषो अग्रये विगतेना गायेत्याः नागमेवाग्निम् भागधेयेन समर्थये स्वाहापृथिवेभ्यामित्याह व्यावापृथिव्या एवेन प्रतिष्ठापयति पवित्रवत्यानयति अवान् चैवोषधेनाम् च अथोषधेष्वेव पशुवन् प्रतिष्ठापयति अन्वारभ्यवायम् यच्छति यज्ञस्य इमानेव लोकायजमानो दिः अमोमि निरामगृह्णादि भद्रमेवासाम् कर्मविष्करोति सा विश्वायुस्सा विश्वव्यधा सा विश्वकर्मेऽत्याह इयम् वे विश्वायुः अन्तरिक्षम् विश्वव्यजाः अथो विश्वकर्मा इमानेवेताभिर्लोकायथा भोर्बन्धे अथो यथा प्रधात्रे पुण्यमाशास्ते एवमेवैना एतदुपस्तौति तस्मात्रा दारित्यण्डेयवन्दमाना उपस्तवन्तः पशोम् दुहन्ति बुद्धेन्द्रादि देवेभ्यो हविर्निवाचते यथा देवतमेव देव्यस्य च मार्षस्य च व्यावृत्ते त्रिणाः प्रषरत्याधिदेवाः ेदारुपात्रम् शब्दानुपात्रेण दुष्यात् यातया हविषायजे अथो अखल्वाहः पुरोडाचमुखानवे हवे गुम्हे एत इदः पुरोडाशकम् हविषोयामोऽस्ति कहमेव दारुपात्रेण दुष्यात् शोद्रमेव न दुष्यात् अथतो अवारेण अर्गपात्रमेवत्या क्षोद्रः तथिना पुनन्ते यदा खलु वे पवित्रमत्ये च अरसद्धमिरिते सम्प्रत्यब्धमतावदेरित्याह अपाञ्चषधीनाञ्चलसंसे तस्मादपाञ्चौषधेनाञ्चलसमुपजे वामः मन्त्राधनश्च इत्याह पुष्टिमेव यजमाने तथा चे सोमे साममेवैनत् करोति यो वे सामम् भक्षयित्वा तम्भत्सरकम् सामन्न पिबते पुनर्भक्षाश्च सामपेशो भवते सोम खलु वे सान्नाय्यम् एवम् विद्वान् सान्नाय्यम् पिबते अपुनर्भक्षाश्च सामपेशो भवते न मन्मयेनापि तद्भ्यार यन्मन्मयेणापि तद्भ्यार पितृदेव त्यग्र्यात् हयस्पात्रेण वादार्पात्रेण वा विदधाति तद्धि सदेवम् उदर्मवते आपो वै रक्षोऽग्नेः रक्षसा वहते अधस्तमसि विष्णवैत्वेत्याह यज्ञो वे विष्णुः यज्ञायैवेन रदस्तम् करोति विष्णोहव्यम् रक्षस्वेत्याः गुप्त्यैः अनधः सादयति गर्भानाम् धृत्याप्रपादाय तस्माद्गर्भाः प्रजानाम प्रपादुकाः उपरेव निरधाते उपरेव सुवर्ग लोकः स्ववर्गस्य लोकस्य समक्ष्यै कर्मणे वाञ्जेवेभ्यश्चके गमित्याः शक्त्यै यज्ञस्य वेदन्तजमनप्रजा पजभोविजमानस्य सन्तायन्ते यज्ञस्य विच्छिद्यमनप्रजा पचभो विजमानस्य यज्ञस्य सन्दतिरसि यज्ञस्य त्वा सन्दत्ते सन्तत्ते त्वा यज्ञस्यत्याहवणीया सन्प्रणोते यजमानस्य प्रजाये पशु नाकम् सन्तत्ते अवप्रणयते श्रद्धा वा आपः श्रद्धामेवारभ्य प्रणेयप्रचलदे अवप्रणयते वज्रमेव भ्रातुर्येभ्य प्रभत्यप्रणीयप्रचलति अवस्पृणयति आपो वै रक्षोग्नेः रक्षसामी अपस्पृणयति आपो वै देवानाम् प्रियन्धाम देवानामेव प्रियन्धाम प्रणीयप्रचरति अपस्पृणयति आपो वै सर्वा देवताः देवता प्रत्यष्टकुण्क्षः प्रत्यष्टाहाराजयित्याह रक्षसामहत्यै धोरथेत्याह एष वैधर्योऽग्निः अञ्जमस्पृश्यादेयाय अध्वर्यम् च यजमानम् च प्रदहे वस्पृश्यात्यजे अध्वर्यश्च यजमानस्तचाप्रदाय धोर्वदय्यो स्मान्धोर्वजितन्धो वायम्भयन्धोर्वा मयित्याः दोवामपुरुषौ यम् चैवोर्वदे यश्चैनन्धोर्वदे का विभोश्चा कृपयदे त्वम् देवानामसस्थितमम् पकृतमम् तिष्ठतमम् वह्नितमम् देवभूतममित्याह यथाविजदेवैत अकृतमधिरविद्धानमित्याहांहस्तमादित्याह सत्ये मित्रस्यत्वाचक्षुषा प्रेक्षयित्याहमित्रत्वाय माघे मागम् वित्त्वा ो नाभिवादे तत्सर्वम् वरुणदेवत्यम् उर्वादायेत्याह अवारुणमेवेन खलो ते दे, देवस्य तासविदः प्रसवेत्याः प्रसो गोच्यै अश्विनाः बाहुभ्यामित्याह अश्विनो हि देवानामध्वर्यो आस्ताः वोष्णास्ताभ्यामित्याह यत्यै अग्रे निर्वपामेत्याह अग्नेपदे लोकाः येषाम् लोकानामाप्त्यैः तोष्णे चतुर्थम् अपरिमितमेवावृन्धे स एवमेवानुपूर्वकम् हवेषिनर्मपदे इदम् देवानामिदमनः सहेत्या हव्यावृत्ते स्वादे त्वानाराः त्यायित्या हृत्त्यै तमसे वा एषोऽ नष्टरदे परे न हि स्वरभिविच्छेदम् वैश्वानिरञ्ज्योतिरित्याः स्वरे वाभिविमश्रदि वै विश्वानिरञ्ज्योतिः द्यावापृथिवेग्रीत उदभेपेतान्हन्तान् दुर्याद्या वा पृथिव्यारित्याः विहानान्द्या वा पृथिव्यार्थृत्यैः कुर्वन्तरिक्षमम् अस्यागेवेन तुस्थे सा जयति अग्ने अव्यगम् रक्षस्वेत्याैः इन्द्रवृत्रमहन् स्वियता तासा यन्मेद्भ्यै यज्ञमासेज तदबोधक्रामज तैतर्भाभवन् यदर्भेरमोत्पनादि याभ्यमयेभ्या यज्ञियास्तभावः ताभिरेवैनामुत्पुनादि त्वाभ्यामुत्पुनादि दिवादिनमानप्रतिष्ठित्यै एवोऽवस्वितात्पुनातिमित्याह सवितप्रसोद एवैनावत्पुनादे अच्छिद्रेण पवित्रेणेत्याह असौ वादित्यो छिद्रम् पवित्रम् एनैवैनावत्पुनादे वसौ सौर्यस्य रश्मिभिरित्याः प्राणावाहवः प्राणावसवः प्राणा रश्मयः प्राणेरेव प्राणान् सम्प्रणक्ते सावित्र्यच्च समितृप्रसोदम् मे कर्मा सदिते सतृप्रसोदमेवास्य कर्मफलदे प्रक्षोगायत्रिया कृष्णमद्धत्वाय आपो देवेरग्रे मो अग्रे उपैत्याः रूपमेवासा मेतन्महिमानम् व्याजष्टे अर्ग्रयमै यज्ञन्नयता अग्रे यज्ञपदिमित्याह अर्ग्र एव यज्ञन्नयन्ति अर्गे यज्ञपदिम् युष्मानिन्द्रोवणे च वृत्रतोर्ये योजमिन्द्रोवणे द्वम् वृत्रतोर्येत्याह वृत्रविवष्यण्न्द्रापो वव्रे आवोहेन्द्रम् ववृदे सञ्ज्ञा मेनाधा मेतत्सामानम् व्यादिष्टे ते? प्रोक्षितास्थेत्याह तेनापःप्रोक्षिताः अग्नयिष्टम् प्रोक्षाम्यज्ञे माभ्यामित्याह यथा यः प्रवक्षते त्रया वृद्धेज्ञः असो रक्षदामहत्यै सुन्धत्वम् देव्याय कर्मणे देवयज्ञाय इत्याह देवयज्ञाय देवैनानिषुधते तः प्रवक्षते त्रया वृद्धेज्ञः अथवा मेध्यत्वाय अवधूतकुं रक्षावधूताराजय अस्या एवेन त्वशम् करोति प्रदित्वा प्रतिमे त्रित्या प्रतिष्ठत्यै पुरस्ताः त्वदेशेन द्वेमुत्तरडोमोपस्तनादिमेत्वाय तस्मात् पुरस्ताः प्रत्यञ्चपशपमे समुपतिष्ठन्ते तस्मात् प्रजामृगम् ग्राहुकाः यज्ञादेवभ्य निदायता कृष्णारूपम् कृत्वा यत्कृष्णाजिने अभिरध्य यज्ञादेव तद्यज्ञम् प्रयुङ्क्ते हरिषस्कन्दाय अधिशमनमधिपानस्पत्यमित्याह अधिशमनमेवैन करोति प्रदुत्वादित्यात्वग्ने प्रिदित्याहसयत्वाय अग्नेसनोरथेत्याह अग्नेर्वा एषा सनोः निर्दोषधयः पाचो विसर्जनमित्याह यदाहि प्रजावोढधीनामश्नन्ति अशपादम् विसजन्ते देववेदये गन्धामीत्याह देवलाभिदेवेण समर्थयति अतिरशिवानस्पर्त्य इत्याह रावाणमेवेण करोति देवेभ्यो हव्येत्याशान्त्यैः हविष्कृतेःत्याह एव देवानागम् हविष्कृतः ता रयति प्रष्पयति हि देवाः विषमापदार्जमापदेत्याह निरमाने यम् सङ्घातम्भ्याभोत्यै मम श्रद्धादेव स्थगमाणस्याविषेशप्रविष्टा चेत् हेतुरायावन्द्वा यज्ञायुषानाम् उद्वदतापाशवन् हे पराभवन् तस्मात् स्वानाम् मध्ये वसायेत धावन्त श्रद्धाद्रव्यायज्ञायुतानाम् उत्तरतामुपशृण्वन्ते परा भवन्ते उच्चैः समाहन्तवाह विजित्ये वृन्तगेशामिन्द्रियम् वीर्यम् श्रेष्ठगेशाम् भवते वरिषवर्धमधिप्रसिक्ता परिषवृद्धम् भेत्वित्याः प्रषवृद्धा वा घोषदयः परिषवर्धाभिषेकः समर्थ्ये यज्ञकौलक्षाकस्य न तान्यस्नापशुभ्यो निरवादयन्तः पराभूतकुं रक्षः पराभूताराजयित्याः रक्षसानुवहत्यै रक्षसाम्भागोऽसेत्याहेदेव रक्षागुंसि निरवदे अपौमस्पृशिमेध्यत्वाय वायोर्वा विविधक्वित्याः पवित्रम् वै वायोः पुनः ते वैनाने अन्तरिक्षादिववायते प्रस्कन्दन्ति ेषोर्पाहाय एवो वस्मिता हिरण्यपाहि प्रतिगृह्णा द्वित्या प्रतिष्ठित्य अविशास्कन्धाय तिष्ठदेकर्तवाः क्रियावृद्धियज्ञः असोमेध्यत्वाय अवधूतकं रक्षोऽवधूताराजगैत्याः रक्षसामवहते अदित्यास्मकथेत्याः यम् वाजः अस्या एवै नजम् प्रदित्वा पशुमेवे द्वित्याः प्रतिष्ठ्यत्य पुरस्ताः प्रदेतेनग्रीवमुत्तरभोमोपस्त्रिमादिमे भक्त्वाय तस्मात् पुरस्ताः भक्तम् च पशवमे समुपतिष्ठन्ते परस्मात् मया मृगङ्ग्राहुकाः यज्ञो देवेभ्यो निदायत कृष्णो रूपम् कृत्वा कृष्णादिने अविनशिविनष्टि यज्ञादेव तद्विज्ञम् प्रयन्ते अविधवास्कन्दाय पृथिवीषहास्ताः ऐषम्या मात्रमे कमः्या मात्रमे गमः निवस्कम् भणर्पथित्वादित्यास्त्वेत्वित्याह दावापृथिव्यार्वेत्यै धृणाजपर्वत्या पृथित्वा युवस्कम् भणिर्वेत्वित्याः दावापृथिव्यार्मिधत्यै धृणाजपार्वतये पृथित्वा पर्वतिर्वेत्वित्याह दावापृथिव्यार्थत्यै देवस्यत्याः प्रथम इत्याह प्रथोके अश्विनाः बाहुभ्यामित्याह अश्विनो हि देवानामध्वर्यो आस्ता ओष्णाहस्ताभ्यामित्याहयत्यै अथिववामीत्याह देवतमेवीनानधिपवदे धान्यम इत्याह एतस्य इति वीर्येण यावदेका ुति प्रथले न हि तदस्ति यत्तावदेव स्यात् यावज्जुहोति प्राणायत्वा बालायत्वेत्याः प्राणानेव याने तथाति येभ्राह्मणप्रतिमायुजेषामित्याह आयुरेवस्मिन् तथाति अन्तरिक्षादिवपा एतानि प्रस्कन्दन्ति यानि त्रिषदः देवो वस्ववितायऽन्यपानप्रतिगृह्णार्मित्याः प्रतिष्ठित्यै अविशस्कन्दाय अहम् वपन्ते पिकुंसाणोनि कुरुदादित्याहमेध्यत्वाय धृत्य ब्रह्म यच्छेत्या धृत्ये अपाः अग्नेमादञ्जहिनिष्क्रव्यादकुम् सेधादे वैजम् महेत्याहे वामाक्रव्यालहत्यग्नोकपालमुपदधादे निर्दग्धकुं रक्षो निर्दग्धातिगत्याः कर्षाकस्येव निर्दहते भिमप्युपदधाति अस्मिन्नेव लोके ज्योतिर्धत्ते अङ्गारमधिवर्तयति अन्तरिक्ष एव ज्योतिर्धत्ते आदित्यमेवाष्मिल्लोके ज्योतिर्धत्ते ज्योतिष्मन्तोऽस्माभिमे लोका भवन्ति यगेवम् वेद ध्रुवमधिपृथिवीम् त्रिगुम्भेत्याह पृथिवीमेवैतेन त्रिगुंहते धर्तमस्य अन्तरिक्षम् त्रिगुम्भेत्याह अन्तरिक्षमेवैतेन त्रिगुंहते धरुणमधिमम् तृगृहेत्याह दिवमेवेतेन दृगम्हति धर्मासु दृशो दृगृह्णेत्याह विषये वेतेन तृगंहते इमानेवैतैर्लोकान् तृगम्हति दृगम्हन्ते लोकाः प्रत्यजा पशुभिः एवम् वेद त्रयेण्यग्रे कपालान्निपदशालि त्रे इमे लोकाः लोकानामाद्यमग्रे कपालम्पदसादि एकम् बाह्रे कपालम् पुरुषस्य सम्भवति अथ द्वे अथ त्रीणि अथ चत्वारि अथाष्टौ तस्मादष्टाकपालम् पुरुषस्य शिरः एवम् कपालान्यपदधाति यज्ञावय प्रजापतिः यज्ञमेव प्रजापतिंसर्गस्करोति आत्मानमेव तत्सर्गस्करोति करकंसर्गस्कृतमात्मानम् अमुष्टम् लोकेऽनुपलैदे यदष्टावपदधाति गायत्र्यादट्संहितम् यन्नवा प्रवृतादत् यद्दशा विराजाद यदेकादश तृष्णुभाद यद्वादश जगत्याद छन्दः संहितानि सौ उपथकपालानि इमान् लोकान्बन्धिष्धर्ते त्रिवंहरे अथाय प्राणान् प्रजान् पशूने यजमाने तथानस्माभितमहुलान् करोति साजलेवेत भृगूणामङ्गिरसान्तपसादप्यर्थमित्याह देवतानामेवेनानि तपसातपदे तानि तदस्ग्रस्थ्यते यानि घर्मे कपालाहान्यपचिन्वन्ति वेधगिरिजष्पदयर्जालमञ्जरे जलष्पादः पशवः ऋतुष्वेवोपरिष्टाः प्रतिष्ठते देवस्य काशविदप्रशव इत्याह प्रसो गोक्ते अश्विनो वाहुभ्यामित्याह अश्विनमहिदेवानामध्वर्यो आस्ताम् ओष्णास्ताभ्यामित्याह यत्यये सम्पपामेत्याह यथा देवतमेवेनानि सम्पदे समापो अभ्यरग्पदसमोढसयोधेनेत्याह आपो वा वोढधेर्जिन्वन्दे वोढसयोपो जिन्वन्दे अन्या वा एतामन्या जिन्वन्दे तस्मादेवमाह एवम् रेवगदेशर्मसुमतेर्मसुमतेशसृज्यध्वमित्याह आपो वे रेमधेः पशुपो जगदेः वोढधय मधुमतेः आपवोढधेः पशून् तानेवास्माय कथा सकुसृज्य मधुमतः करोते अभ्यपरिप्रजाता शतमभ्यप्रत्यर्थमिति पर्याप्राप्यते यथा सुमृष्टयुवामनुविसृत्या आपवोषधेर्महयन्ते तादृगेव तत् अजयज्ञे त्वादं योमेत्याह प्रजा एवै तेन अग्नयेमाभ्यामित्याह्यावत्यै नखः शिरोदेत्याह यज्ञो वैमकः तस्यैतक्षिरः यत्पुरोणाशः तस्मादेवमाह घर्मोदिविश्वायुरित्याह विश्वमेवायुर्यजमाने दधाति पुनःप्रथस्तो हृते यज्ञपतिप्रसदामित्याह यजमानमेव प्रजयापथिप्रथयतेश्वेत्याह सर्वमेवेन पुंसदनम् करोति अथा पानीयपरिमाष्टे मांस एव तत्पचम् दधाते तस्मात्त्वच अर्धमासे अर्धमासे प्रवृश्यते यत्प्रोडासः चेयेश्वरो यजमानकंशिता प्रदः पर्यज्ञि करोति पशुमेगेन मकः शान्त्यप्रदाहाय तत्पर्यज्ञिकरोति त्रिया वृद्ध्ययज्ञः अथो रक्षसामकहत्यै अन्तरितकुम् रक्षोऽन्तरिता इत्याह रक्षसामन्तरिहत्यै रोडासम्बाधिकुम् रक्षाविस्त्रनिखाकम् सन् रक्षोहा, ो न महावास्ताक्षारा देवस्ताश्रवय सबूत वर्षिठ रक्षसावहतेमतिदा अग्हतेक्षस्वे अमित ह्रवये दिवाचं विसजते यज्ञमेव हवेयष्यभिव्याहृत्य प्रदमते पुरोगमभिलाः विशब्दीकरोति मस्तिष्को वै पुरोडादः तयम्नाभिवादयेत् आविर्मस्तिष्कस्या तस्मात् गुहामस्तिष्कः तस भस्मनाभिवादयते तस्मान् माकुंसेनातिषन्नम् वेदे नाभिवादयते तस्माक्े चिरक्षन्नम् अखलति भावुको भवति यगेवम् वेदा पशुर्वै वे प्रतिमापुरोडाशः सः यजुष्कमभिवास्यः पृथेव स्या ईश्वरा यजमानस्य पशवः प्रमेदोः सम्ब्रह्मणा वृक्षस्वेत्याह प्राणा वै ब्रह्मा प्राणा पशवः प्राणेरेव पशुवन्सम्प्रणक्ते न प्रमायुका भवन्ति यजमानो यजमानमेव प्रजयावधिभिः समर्थयति देवा वैहविर्भृत्वा ब्रुवन् कस्मिन्निरम् रक्ष्यामः इति सोऽह्यजेरे मयि तनोः सन्निदध्वम् अहम् हस्तम् जनयिष्यामि यस्मिन् रक्षध्यगिति हे देवा अग्नौ तनोः सन्निदधत तस्मादाहोः अग्निः सर्वा देवता इति तद्वितीयमभ्यपादेत ततोऽभ्युतोजायत तृतीयमभ्यपादेत ततस्ततो जायत यदभ्योजायन्त तदा आत्म्यानामात्म्यत्वम् यदात्मभ्यो जायन्त तदा आत्म्यानामात्म्यत्वम् हे देवा आप्यमृजत आप्यामृजत सूर्याभ्युजते सूर्याभ्युजतस्तौर्याभिणिमृक्ते सूर्याभिणिम् वृक्तः क्वनशिने पुनके श्यापदके श्यापदन्नग्रजदिषौ अग्रजिषः परिवित्ते परिवित्तो वीरहणि वीरहा ब्रह्मणि तद्ब्रह्माणम् नात्यच्छपदा अन्तर्वेदने अत्यवरुध्ये उन्मुखेनाभिगृह्णादिशतत्त्वाय श्रुरगामाय बहिदेवाः देवस्यत्वात् विदः प्रसवमालत्ते पृथोक्ते अश्विना बाहुभ्यामित्याह अश्विनमधिदेवानामध्वर्यो आस्ताः ओष्णोहस्ताः जामित्याहयत्ये आदुजन्द्रस्य बाहुलसु दक्षिण इत्याह इन्द्रियमेव यजमाने दधातेजामित्याहमेवास्येदन्महिमानम् व्याजुष्टे वायुसु जिमदेजा इत्याह तेजोवे वायुः तेज एवास्मिन् दधाते झाद्वे नामासुरहासे स्वभिभे यज्ञेन मा देवाभिष्यन्तीति स पृथिवीमभ्यपमे सा मेऽध्याभवत् असो यदिन्द्रवृत्रमहन् तस्य लोहिदम् पृथिवीमनव्यावत् सा मेध्याभवत् पृथिवीदेवैजनेत्याह मेध्यामेवैलाहन् देवैजनीम् करोति कोणध्यास्ते दे बोड़ वो नहिगुम् च समित्याः कोणधीनामहिगुम् प्रजङ्गक्षगोस्थानमित्याह छन्दाकम् शिवैर्थानः छन्दाकस्येवास्मैर् प्रजङ्गोस्थानम् करोतिद्यौरित्याहेद्योः वृष्टिमेवावृन्धे प्रधानदेव समिदः परमस्याम् परावदेत्याह भूवामपुरुषौ त्यैव द्वेष्टे यश्चेष्टे भोमध्नाय नमस्याम् परावृत्खेन भोगेत्याहारिक्ते हररुमासुराधेत् व्यापम् लप्तो अपहतोरणपृथिव्या इति पृथिव्या अपाहघ्नन् भादृव्या वा अलः अपह तोरणपृथिव्या इति यदाः भागलव्यमेव पृथिव्या वहन्ते ते मन्यन्ता दिवम्बायमिदः परिश्यते तमलस्ते दिवम्बास्त्राणि दिवः पर्यवासन्त भादुर्य वा अनः अलहस्तेदिवम्बास्त्राणि देदाः भादुर्यमेव दिवः परिभाषते स्तम्बगजुर्हरते पृथिव्या एव भ्रादुर्यमवहन्ते हरते अन्तरिक्षादेवेण वहन्ते तृतीयगम् हरते दिवगेवेण वहन्ते तोष्टेण चतुर्थम् हरते अपरिमिता देवेन वपहन्ति असुराणाम् बाह्यमग्राहेत् यावदाहीनः परापश्यति तावद्देवानाः ते देव अब्रुवन् अस्तेव न स्यामपीति किन्नोलास्ति चेति यावत् स्वयम् परिगृह्णे चेति एव वसुभिर्दक्षिणा ऋद्धे प्रत्यन्तः आदिते हृदम् चः यस्यैवम् विलसौवेजम् परिगृह्णन्ते भवत्यात्मनाः पराः भवते दे, देवः सृतस्तपयित्याः कृतो कर्म कृते वेशर इत्याः कर्म ग्रियते पृथिव्ये च मेध्यम् च विलक्रामदाम् राजेन प्रदेशेन दक्षिणामेध्यम् प्रभणाम् करोति मेध्यामेवैनाम् करोति प्राञ्च वन्दयते आहवणीयस्य परिगृहेत्ये प्रदेशे श्रवणे गार्हवत्कस्य परिगृहेत्ये अथोऽपि सयद्धन्ते दे, यदेवास्यामेध्याम् तदवहन्ते उद्धन्ते तस्मादोढसयप्पला भवन्ति मूलम् छिनत्ये भातृव्यस्त मूलम् छिनत्ये मूलम् वा चतुष्ठद्रक्षागस्य नोप्युपदे यद्धस्त्रेण छिन्द्यात् पुने प्रजा स्युः स्त्रेण छिनत्ये तद्रावयेष्टः खनदे प्रजापतिनायज्ञमुखेन संमिताम् वेदृद्देवेऽभ्य निदायत तान् चतुरम् कुलेऽन्वीन्दन् तस्मा चतुरम् कुलम् खेयाः चतुरम् गुलम् खनते चतुरम् कुलेश्चोडुशयप्रतिष्ठन्ते आप्रतिष्ठायै खनते यजमानमेव प्रतिष्ठाम् गमयते दक्षिणतो वर्षेयसे करोति देवगजनसेव रूपमगः पुरेणपदेम् करोति प्रजा ैम् पजषः कुलेशमन्तम् करोति उत्तरम् परिग्राहम् परिगृह्णाति एतावदेवै पशिवे यावदेवेदिः तस्यागेतावदेव भ्रातुर्यम् निर्भज्य आत्मन उत्तरम् परिग्राहम् परिगृह्णाति रमसृसरमस्रदस्ते रसेत्याहेतत् क्रूरमिव एतत्करोति यद्वेदीम् करोति था असेति योऽयप्य तेषाम् ते यो यो पूर्वे ते चास्वे चासेत्याः पूर्वे मेवे नाम् वस्वेम् करोति पुरा क्रूरस्य नित्याहमेध्यत्वाय दादायम् दे ददातुर्यामेवेम् चन्द्रमजस्पथाभिरित्याहमेध्यम् तदर्भात्या मेध्याङ्गजने कृत्वाश्चन्द्रमधिमेध्यम् स्यामेलयति तान् धीरानुक्षात्रे प्रोक्षणे रासादया युष्मा बहिर्वदया समञ्जस्वशस्य समृद्धे पत्रेतुम् सन्नह्य आद्य नेहेत्याहोर्वये प्रोक्षणे रासादयति आपो वै रक्षोग्नेः रक्षामर्हते ह्यस्य मत्मन् साधयते यज्ञस्य सन्दत्यै उवाजहासुतोदेवनः एतावदेर्वामुष्णम् वाताभासन् यावदे प्रोक्षये तस्मासाद्याः स्फ्यन् यन्विष्ट्यार्थम् ध्यायेत् सुजयवैनवर्गे अजोवये स्थ्यः यदन्पञ्चम् धारयेत् धर्यहक्षम् वेद पुरस्ताः त्रिगञ्चम् धारयति वज्रोपेष्भ्यः वज्रेणैव यज्ञस्य दक्षिणतो रक्षालस्य वहन्ति अग्निभ्याम् प्रातश्च प्रतीतश्च स्फेनोतीतश्च स्फेन वा एकवज्रेणस्यैवात्मानम् धातुर्यवभहत्य उत्कले चिप्रविष्ठति यथा बधाय पृष्ठन्त्येवम् हस्तावने निते आत्मानमेव भवेदे स्विक्षालयजमे धाय अथवाण एव भ्रातव्यस्यन्शिनप्ते युद्धापरिकल्पसादेः यज्ञस्य विचनत्वाय अथवा पुरोर्जुमेवैकान्तसादे उत्तरस्य कर्मणोनुक्षाद्य न पुरस्तात्प्रत्यगुपसादयेत् यत् पुरस्तात्प्रत्यगुपसाधयेत् अन्यत्राहुरथादिध्यम् प्रतिपादयेत् प्रजावे बलेः अपराध्ययाद्बर्हिषाः प्रजानाम् प्रजननम् पश्चात्प्रामुपसादयते आहुदिपथे मेध्वम् प्रतिपादयति सम्प्रत्येव बहिषाः प्रजानाम् प्रजननम् वैदि दक्षिणमिध्वम् उत्तरम् बहिः आत्मा वा निध्वः प्रजाबरिह प्रजात्मन उत्तरतराधेऽर्थे अथवा मेध्वमपनीय यथा देवतमेवैहत्व प्रतिष्ठावयते अगरक्षरप्रजयाम जनर्गमानः